संवत्सरकरोऽश्वत्थः कामचक्रो विभावसुः योगी व्यक्ताव्यक्तः सनातनः कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मातमोऽनुदः वरुणः सागरोऽंशुश्च जीमूतो जीवनोरिहा भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः सृष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः अनन्तः कपिलो भानुः कामदः सर्वतोमुखः जयो विशालो वरदः सर्वधातुनिषेचिता मनः सुपर्णोभूतादिशीघ्रगः प्राणधारकः धन्वन्तरिर्धूमकेतुरादिदेवोदिते सुतः द्वादशात्मारविन्दाक्षः पिता मातापितामहः स्वर्गद्वारम् प्रजाद्वारम् मोक्षद्वारम् त्रिविष्टपम् देहकर्ता प्रशांतात्मा विश्वात्मा विश्वतोमुखः चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः एतद्वैकीर्तनीयस्य सूर्यस्यामिततेजसः नामाष्टशतकम् चेदम् प्रोक्तमेतत्स्वयम्भुवा सुरगणपितृयक्षसेवितम् ह्यसुरनिशाचरसिद्धवन्दितं, सिद्धवन्दितम् वरकनकहुताशन प्रभम् प्रणिपतितोऽस्मिहिताय भास्करम् सूर्योदये यः सुसमाहितः पटेत् सदा धृतिम् च मेध्याम् पुमान्